अथ चतुर्विंशः ततः प्रभाते विमले कृताह्निकमरिन्दमौ विश्वामित्रम् पुरस्कृत्य नद्या स्थीरमुपागतौ ते च महात्मानो मुनयः संशितव्रताः उपस्थाप्य शुभाम् नावम् विश्वामित्रमथा ब्रुवन् आरोहतु भवान् नावम् राजपुत्रपुरस्कृतः अरिष्टम् गच्छ पन्थानम् मा भूत्कालस्य पर्ययः विश्वामित्रस्तथेत्युक्त्वा तादृशीन् प्रतिपूज्य च तदारसहितस्ताभ्याम् सरितम् सागरम् गमाम् तत्र शुश्राव वैशब्दम् तोयसंरम्भवर्धितम् मध्यमागम्यतो तस्य शब्दस्य निश्चयम् ज्ञातु कामो महातेजाः सह अथ रामः सरिन्मध्ये पप्रच्छमुनिपुङ्गवम् वारिणो भिद्यमानस्य किमयम् तु मुलोध्वनिः राघवस्य वचः श्रुत्वा कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् कैलासपर्वते राममनसा निर्मितं परम् ब्रह्मणा नरशार्दूलते नेदम् मानसंसरः तस्मात् शुश्रामसरसः सा योऽध्यामुपगूहते सरः प्रवृत्ता सरयोः पुण्या ब्रह्म सरश्च्युता तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते वारि राम प्रणामम् नियतः कुरु ताभ्याम् तु तावभो प्रणाममतिधार्मिकौ तीरम् दक्षिणमासाद्य सवनङ्गोरसङ्काशम् दृष्ट्वा नरवरात्मजः अविप्रहतमैक्ष्वाकः पप्रच्छमुनिपुङ्गवम् अहो वनमिदम् दुर्गम् झिल्लिका गणसंयुतम् नानाप्रकारैः शकुनैर्बाह्यद्भिर्भैरवस्वनैः सिंहव्याघ्रवराहैश्च वारणैश्चापि धवाकर्णककुभैर्बिल्वतिन्दुकपाटलैः सङ्कीर्णम् बदरीभिश्च किंविदम् दारुणम् वनम् तमुवाच महातेजा विश्वामित्रो महामुनिः श्रूयताम् वत्स काकुत्स्थयस्यैतद्दारुणम् वनम् एतौ जनपदौ स्फीतौ पूर्वमास्तान्नरोत्तमा मलदाश्च करुषाश्च देवनिर्माणनिर्मितौ पुरा वृत्रपधे राममलेन समभिप्लुतम् क्षुधा चैव सहस्राक्षम् ब्रह्म हत्या समाविशत् तमिन्द्रम् मलिनम् देवा ऋषयश्च तपो धनाः प्रमोचयन् इह भूम्याम् मलम् दत्त्वा देवाः महेन्द्रस्य ततो हर्षम् प्रपेदिरे निर्मलो निष्करुषश्च शुद्ध इन्द्रो यथा भवत् ततो देशस्य सुप्रीतो वरं प्रादादनुत्तमम् इमौ जनपदौ स्फीतौ ख्यातिम् लोके गमिष्यतः मलदाश्च करूषाश्च ममाङ्गमलभारिणौ साधु साध्विजितम् देवाः पाकशासनमब्रुवन् देशस्य पूजाम् दृष्ट्वा कृताम् शक्रेण धीमता एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दमा मलदाश्च करुषाश्च मुदिता धनधान्यतः कस्यचित्वथ कालस्य यक्षिणी कामरूपिणी बलम् नागसहस्तस्य धारयन्ती तदाह्यभूत् ताटका नाम भद्रन्ते भार्या सुन्दस्य धीमतः मारीचोराक्षसः पुत्रो यस्याश्चक्रपराक्रमः वृत्बाहाशीर्षो महाशीर्षो से तनुर्मान राक्षसो भैरवाकारो निसये प्रजाइम नित्यं विनाशयति राघव मलदूषाश ताटका दुष्टचारिणी से पंथ नवसोजने अतएव गाटकाया वन्य स्वबाहुबलमाश्रित्य जहीमाम् दुष्टचारिणी मन्नि योगादिमन्देशम् कुरु निष्कण्टकम् पुनः न हि कश्चिदि मन्देशम् शक्तो ह्यागन्तुमीदृशम् यक्षिण्याघोरया राम उत्सादितमसह्यया एतत्ते सर्वमाख्यातम् यथैतद्दारुणम् वनम् यक्ष्या निवर्तते इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्विंशः